श्रीसूक्तम् श्रीगुरुभ्यो नमः हरिः ॐ हिरण्यवर्णाहरणिं सुवर्णरजतस्रजां चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवहो तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् यस्यां हिरण्यं विन्देयं गामस्वं पुरुषानहम् अश्वपूर्वां दथमध्यां हस्तिना आदप्रबोधिनीं श्रियं देवीमुपह्वये सेमा आद्देविजुसतां कां सोस्मितां हिरण्यप्राकारां मार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् पद्मे सितां पद्मवर्णां तामिपोह्वये श्रियं चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनेमीं चरणमहं प्रपद्ये लक्ष्मीर्मे नश्यतां त्वां आदित्यवर्णीतपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ विल्वः तस्य फलानि तपसानुदन्तो मायान्तरायश्च वाच अलक्ष्मी उपैतु मां देवसखकीर्तिश्च मणिनाशः प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तमृद्धिं ददातु मे क्षुद्विपाशामलां देशामलभ्यं नाशयाम्यहम् अभूतिं समृद्धिं च सर्वान् निर्गुणज्ञे गृहात् गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ईश्वरेगं सर्वभूतानां तामिपोह्वये श्रियम् मनसकाममाको ऊचिंवाच सत्यमसीमही पशूनां रूपमन्यस्य मयि श्रीश्रियतां यश कर्दमेन प्रजाभूतां मयि सम्भव कर्दमां श्रियं वास मे मातरं पद्ममालिनी आपसृजन्तु सिग्धानि चिल्कितवश मे गृहे नीचदेवीं मातरं श्रियं वाचय मे कुले आर्द्रां पुष्करिणीं पुष्टिं पृङ्गलां पद्ममालिनीं चन्द्राम्भिरण्मयीं लक्ष्मीं जातवेदोम आवहू आर्द्रां जकर्णीं यष्टिं सुवर्णां भेममालिनीं सूर्याम्भिरण्मयीं जाक्ष्मीं जातवेदो म आवहू ताम् आवहजात वेदो लक्ष्मीमनपगामिनीम् यस्यां हिरण्यं प्रभूतं गावो दास्यो विन्देयं पुरुषानहं यशुचिप्रेतो भूत्वा जुहुया आदाज्यमन्वहं चियपञ्चदशं च श्रीकामसम् जपे पद्मानने पद्ममुरुपद्माक्षीं पद्मसम्भवेन् त्वं मा आं भजस्व पद्माक्षी येन स ओख्यं अश्वदायि गोदायि धनदायि महाधने धनं मे जुषतां देवी सर्वकामश्च देहि मे पुत्रपौत्रधनं धान्यं प्रजानां भवसि माता आयुष्मन्तं करोतु मां धनमग्निर्धनं वायुर्धनं सूर्यो धनं वशुः धनमिन्द्रो बृहस्पतिर्वरुणस्धनमस्तुते वैनतेय सोमं पिब सोमं पिबतु वित्रहा सोमं धनस्य सोमिनो मह्वं ददासि सोमिनः नक्रोधो क्रोधो नलोभो च माश्चर्यं न ना लोभो नाशुभामतिः भवन्ते कृतपुण्यानां भक्तानां श्रीशोक्तं जपे सदां वर्षन्तु ते विभावरी दिवो अभ्रस्यद्विद्युतः रोहन्तु सर्वबीजानि अवब्रह्म पद्मप्रिये पद्मनि पद्महस्मि पद्मालये पद्मदलाय ताक्षी विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधस्व या सा पद्मासनस्थाव्यपुलकटितटे पद्मपत्रायताक्षी गम्भीरावर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीयाम् लक्ष्मीर्दिव्यैगजेन्द्रैर्मणिगणखचितै स्नापिता हेमकुम्भै नित्यं सा पद्महस्तां मम वसति गृहे सर्वमाङ्गल्ययुक्तां लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभुवब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियां सिद्धलक्ष्मीर्मोक्षलक्ष्मीजयलक्ष्मी सरस्वती श्रीलक्ष्मीवरलक्ष्मीश्च प्रसन्नां मम सर्वदां वराङ्कुशोपासमभीतिमुद्रां बालार्गकोटिप्रतिभां त्रिनेत्रां भजेहमाद्याम् ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदान् प्रचोदया आत महीं देवीं विष्णुपत्नी मधुर्याम प्रतीचिं मे नागं हविषायजामः तेधा विष्णुदुर्गायो विचक्रमे महिं दिवं पृथिवीमन्तरिक्षं तत्सूत्रै पुण्यज्ञश्लोकं यजमानाय कृण्वती ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तत्सत् श्रीरामकृष्णार्पणमस्तु ॐ घृणाही घृतवती सवितराधिपत्यै पयस्वतिरन्तिराषाणो अस्तु ध्रुवादिसां विष्णुपत्नघोरास्येषान्ना सह भयोः सहसूयामनोता आम् बृहस्पतिर्मातरि श्रोतवायुस्सन्धां सन्धुवाना वाता अभिनो गृह्णन्तु विष्णम्भो दिवोद्धरुणः पृथिव्या अस्येषाना जगतो विष्णुपत्नी ॐ शां तेषां तेषां तिः ते हरिः ॐ दुर्गासुक्तम् ॐ जातवेदसे सुनवाम सोममराति यतो निदहाति वेदः परिषदिति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्नि तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफले सुजुष्टा आम् दुर्गां देविगं शरणमहं प्रपद्ये सुतरसि तरसि नमहो अग्ने त्वं पारयाणव्यो अस्मान् स्वस्ति विरति पुश्च पृथ्वी बहुला न उर्वीभवातु कायतनयायसयो विश्वानिनो दुर्गहा जातभेदसिन्धुन्ननामादुरितातिपर्षी अग्ने अत्रिवर्मनशागणानोऽस्माकं बोधपिता तनूना आम् पितनाजितगं सहमानमोग्रमग्निगं भुवेम पर मादुस्ता न परिषदति दुर्गाणि विश्वाच्छामध्येवोऽतिदुरितात्यग्निः प्रत्नौ शिकमेढ्यो अध्वरे सुनात्य भूतानभ्यश्चशस्ये स्वाञ्चा आग्नेतनुवं प्रियप्रियस्वास्मभ्यं च सौभगमायुजस्व गोविर्जुष्टमयुजो निषिक्तं तवे एन्द्रविष्णोरनुसञ्चरे माम् नाकस्य पृष्ठमपि सम्वशानो वैष्णवीं लोक इहमादयन्ताम् ॐ स्वात्याय नाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गी प्रचोदया आत ॐ शां तेषां तेषां तिः हरिः ॐ तस्सत् श्रीरामकृष्णार्पणम